गरुडपुराणम् आचारकाण्डम् अध्यायम् त्वल् हरिरुवाच पूजानुक्रमसिद्ध्यर्थम् पूजानुक्रम उच्यते ॐ नम इत्यादौ संस्मृतिपरमात्मनः यं रं रमिति कायशुद्धिः ॐ नम युदि चतुर्भुजात्म निर्माणम् तदस्त्रिविधः करतायन्यासः तदोहृदित्तयोगपीठपूजा ओम् अनन्ताय नमः ॐ धर्माय नमः ॐ ज्ञानाय नमः ॐ वैराग्याय नमः ॐ ऐश्वर्याय नमः अधर्माय नमः ॐ अज्ञानाय नमः ॐ अवैराग्याय नमः ॐ अनैर्याय नमः ॐ पद्माय नमः ॐ आदित्यमण्डलाय नमः ॐ चन्द्रमण्डलाय नमः ॐ वन्निमण्डलाय नमः विमलाय नमः ॐ उत्कर्षिण्यै नमः ॐ ज्ञानाय नमः ॐ क्रियाय नमः ॐ योगायै नमः ॐ प्रह्व्यै नमः ॐ सत्याय नमः ॐ ईशानायै नमः ॐ सर्वतोमुख्यै नमः ॐ हरे रासनाय नमः तदकर्णिकायाम् अम् वासुदेवाय नमः आं हृदयाय नमः ईं शिरसे नमः ॐ शिखायै नमः ऐं कवचाय नमः औं नेत्रयाय नमः अह फट् अस्त्राय नमः आम् सङ्कर्षणाय नमः अम् प्रद्युम्नाय नमः अह अनिरुद्धाय नमः ॐ अह नारायणाय नमः ॐ तत्सद्ब्रह्मणे नमः ओम् विष्णवे नमः क्षौं नरसिंहाय भूर्वराह्य कं वैनतेयाय जं खं वं सुदर्शनाय कं चं फं क्षं गतायै वं लं मं क्षं पाञ्जन्याय ं ठं भं हं श्रियै डं गं डं वं शं पुष्ट्यै ढं वं वनमालायै दं शं श्रीवत्सायच्छं डं यं कौस्तुभाय शं शार्ङ्गाय इं यिषुभिभ्यां छं चर्मणेखम् खड्गाय इन्द्राय सुराय पर्तते पर्तये अग्नये तेजोऽधिपतये यमाय धर्माधिपदये क्षम् नैरृताय रक्षोऽधिपतये वरुणाय जलाधिपतये यौम् वायवे प्राणाधिपदये धां धनदाय धनाधिपदये हां ईशानाय विद्याधिपदये ॐ वज्राय शक्रियै ॐ दण्डाय खड्गाय ॐ पाशाय ध्वजाय गदायै त्रिशूलाय लम् अनन्दाय पादालाधिपदये ं ब्रह्मणे सर्वलोकाधिपदये ॐ नमो भगवते वासुदेवाय नमः ॐ नमः ॐ नं नमः ॐ ॐ नमः ॐ भं नमः ॐ गं नमः ॐ वं नमः ॐ तें नमः ॐ ं नमः ॐ सुं नमः ॐ दें नमः ॐ वां नमः ॐ यं नमः ॐ नमःं नं नमः ॐ नमः ॐ नां नमः ॐ रां नमः ॐ नां नमः ॐ यं नमः नमो भगवते वासुदेवायम् ॐ नमो नारायणाय नमः ॐ पुरुषोत्तमाय नमः नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज होमकर्मणि चैदेक्षाम् स्वाहान्तमुपकल्पयेद येवं जक्त्वा विधानेन शतमष्टोत्तरम् तथा अर्खम् दत्त्वा जिदं तेन प्रणामं च पुनः पुनः तदोऽग्नावपि सम्पूज्यम् तम् यजेत यथाविधि देवदेवम् स्वबीजेन अङ्गादिभिरधाच्युधम् पूर्वमुल्लिङ्घ्य चाभ्युक्ष्य प्रणवे न तु मन्द्रविद पूजये च शुभैफलैः पूर्वं तत्सर्वं ध्यात्वा मण्डले मनस्सान्यसद वासुदेवाख्यतत्वेन हुत्वा चाष्ठोत्तरं शतं सङ्घर्षणादिबीजेन यजेत्षट्कम् तथैव च त्रयम् त्रयम् तथाङ्गानामेकैकान् दिक्पदींस्तद्धा पूर्णाहृदिम् तथैवान्ते दद्यात् सम्यगुपस्थितः वा गतीदे परे तत्त्वे आत्मानम् च लयम् नयेद् उपविश्य पुनर्मुद्रां दर्शयित्वा न पुनः नित्यमेवंविधं होमं नैमित्तं द्विगुणं भवेद् गच्छ गच्छ परं स्थानं यत्र देवो निरञ्जनः गच्छन्तु देवदा सर्वा स्वस्थानस्ति सुदर्शनश्रीहरिश्च अच्युतः सत्रिवि क्रमः चतुर्भुजो वासुदेव षष्ठप्रद्युम्न एव च सङ्कर्षणपुरुषो धनवव्यूहो दशात्मकः अनिरुद्ध द्वादशात्मा अध ऊर्ध्वमनन्त ये दे एकादिभिश्चक्रायुर्विज्ञेया लक्षिता सुराः चक्राङ्गिधै पूजितस्यान्द्रिहे रक्षेत् सदा न वै ॐ चक्राय स्वाहा ॐ विचक्राय स्वाहा ॐ सुचक्राय स्वाहा ॐ महाचक्राय स्वाहा ॐ महाचक्राय असुरान्तकृत् हुं फट् ॐ हुं सहस्रार हुं पट द्वारकाचक्रपूजेयम् गृहे रक्षाकरी शुभा इति श्रीगारुडे महापुराणे आचारकाण्डे पूजानुक्रमनिरूपणम् नामद्वादशोध्यायः ओम्